मुद्गलपुराणम् खण्डम् एय् धूम्रवर्णचरितम् अध्यायम् ट्वेल्व् गुणेशावतारवर्णनम् श्रीगणेशाय नमः श्रीशिव उवाच त्रिपुरो नाम दैत्योभून्महाबलपराक्रमः ब्रह्मणो वरदानेन जिज्ञे सर्वं चराचरं कर्मलोपं चकाराः सौ महाबलपराक्रमः वर्णसङ्करजं कर्म कारयामास मानवैः ततो पोषणसंयुक्ता देवा मां शरणं ययुः अहं क्रोधसमायुक्तो योद्धुं तेन गदोभवं मम तस्य महद्युद्धं बभूवे दारुणं परं देवानां दानवानां च तुमूलं रोमहर्षणं संहारास्त्राणि सर्वाणि मया त्यक्तानि वेगदः तानि निष्फलरूपाणि बभूवुश्च महर्षयः अधो विस्मितचित्तोऽहमभवं खेदसंयुधः सहसैत्यराजेनाग्निशस्त्रेण जितो भवं तदः कैलासमुत्सृज्य गदोऽहं गहनं वनं निःस्वस्य चिन्तया युक्तो भवं चैव हतोद्यमः विचारं मानसे विप्रा अकरवं हितावहम् मम हस्तेन दैत्योऽयं मरिष्यदिन संशयः तत्कथं कृतं हैवेन केन च ईशोहमनीषो जातः तत्रैव सहसा देवमुनिर्नारद आययौ मां भक्त्या पूजितः मया तथा ततो मयादिखेदेन पृष्ठोत्सौ नारदो मुनिः त्रिपुरस्य बद्धार्थाय मां जगादस बुद्धिमान् नारद उवाच शिवत्वं मोहसंयुक्तो हङ्कारेण धृतोसि वै विघ्नराजमनर्च्यासौ सत्ताहीनोऽसि भो भो विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः ईषत्वं तेऽधुना नष्टं ढुण्डेरनर्चनात् प्रभो सत्तां स्वकीयदेहस्तां धृत्वा मोहपरायणाः गणेशं येन जानन्ति सत्ताहीना भवन्ति ते यस्य कडाक्षपादेन कृपया तृणमेककं सृजदेपाधिघन्त्येव ब्रह्माण्डं लोकसङ्कुलं तस्य कृपा विहीनस्त्वमशक्तोऽसि सदाशिव संहर्तुं तृणकं चैव कुतो दैत्यं प्रजेष्यसि अतस्थं शरणं गच्छ तेन सत्ता समन्विदः हनिष्यसि महादैत्यं त्रिपुरं त्रिविधेरथं मुद्गल उवाच यवमुक्त्वा महेशानं तं प्रणम्य महामुनिः नारदो गणपं गायन् ययौ स्वेच्छापरायणः तदशिवो हृदि स्मृत्वा गणेशं ब्रह्मनायकं दण्डकारण्यदेशे स वनगस्तप शतवर्षे गदेते स आययौ गणनायकः मूषकोपरिसंस्तो यो दशायुधरप्रभुः तं दृष्ट्वा सहसोद्धाय शङ्करप्रणनामः पूज्यतुष्टावकर्षेण गणेशं भक्तिसंयुधः श्रीशिव उवाच गणेशाय परेशाय धूम्रवर्णाय ढुण्डये शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः गणेशाय गुणानां ते स्रष्टे पात्रे महात्मने संहर्त्रे देवदेवाय हे रम्बाय नमो नमः अनंद विभवायनंदमाचालनंदोदरगाय विघ्नेशा नमो नम ज्येष्ठराजा जेश्ट ज्येषा ज्येष्ठा ज्येष्ठिणेपूज्यापूज्यामो जेश्टा नम स्वानंदपे तोभ्यं नाधेक्षु सिद्धिबुद्धिपेक्षुसागरप नम मनोवाणीनाय मनोवाणी माते योगेशय महाुसुताये नमो नम नमो नम दण्डकारण्यदेवाय ब्रह्मेशाय नमो नमः यत्र वेदादयो नाथयोगिनः शान्तिमाययुः तं पश्यामि गणाधीशं धन्योऽहं सर्वभावदः नेत्राणि धन्यरूपाणि प्रभोत्वदर्शने नमे न मस्तकानि नमस्कारास् वनान्मे मुखानि ते हस्ता तस्तेमे मे धन्या सर्वमदीयकं धन्यं ते पादपद्मस्य दर्शनेन गजानन भक्तिं देहि त्वदीयां मे तयाहं गणनायक कृतकृत्यो भविष्यामि शान्तियोगपरायणः त्रिपुर वधार्यम देत महेश धीश साकु नि शिव से वचनम शुवा गुणेशस्तमदा ब्रवीद भक्त देवरिष्ठ तो तपस्तोषि भृश्यं श्रीगणेश उवाच त्वयोक्तं सफलं सर्वं भविष्यति सदाशिव अन्यत्रिपुरनाशार्थं वदामि शृणुसाम्प्रतम् त्रिविधा परमाया देहभोगपरायणा आसुरी त्रिपुराख्या सा पडा तस्याजयार्थमत्यन्तं तुरीयं गणपाकृति तया श्रितमदीयं च रूपं पुरुषवाचकं पौरुषं बीजरूपं में गृहाणत्वं सदाशिव मायां त्रिगुणरूपां तु मयिक्षिप विचक्षणः यवमुक्त्वा गुणेशस्तं ददौ मन्त्रं तु पौरुषं मायां गृह्य निर्मोहमकरोत् शिवम् तत्र सोन्तर्हितः सद्यो गुणेशो ब्रह्मनायकः शिवो मन्त्रप्रभावेण जकानत्रिपुरा पुरासुरं सदा पौरुषभावेन संयुक्तः स बभूवः मायाम् जित्वा विशेषेण स्वाधीनां तां चकारः शृणुयाद्यो गणेशस्य स्तोत्रं शिवकृतं पठेद निर्मोहकः सर्वभावेषु भवेद्देवपरायणः पुत्रपौत्रसमयुक्तो धनधान्यसमन्वितः भुक्त्वा भोगाननेकांश्चान्ते स्वानन्दमवाप्नुयात् इदम् गुणेशमाहात्म्यं कथितं लेशतो मया पठनात् श्रवणान्नृभ्यः सर्वसिद्धिप्रदायकं धूम्रवर्णात्मकश्चायमवतारप्रकीर्तितः पौरुसार्थप्रदः पौरुषार्थप्रदपूर्णो गणेशो भुक्तिमुक्तिदः ॐ श्रीमदांध्ये पुराणो पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्ट खंडे धूम्रवर्णचरते गुणेशवतार्णन ओम